अथ चतुर्नवत्यधिकशततमोऽध्यायः वैशम्पायन उवाच तत आहूयपाञ्चाल्यो राजपुत्रम् युधिष्ठिरम् परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः पर्यपृच्छदीनात्मा कुन्ते पुत्रम् सुवर्चसम् कथम् जानीम भवतः वैश्यान् वा गुणसम्पन्नानथवा शूद्रयोनिजान् माजामास्थाय वा कृष्णाहेतोरनुप्राप्ता देवाः सन्दर्शनार्थिनः ब्रवीतु नो भवान् सत्यम् सन्देहो ह्यप्र नो महान् अपि नः संशयः स्यान्ते मनःसन्तुष्टिमावहेत् अपि इच्छया ब्रूहि तत्सत्यम् सत्यम् राजसुशोभते इष्टापूर्तेन च तथा वक्तव्यमृतम् न तु श्रुत्वा तव वाक्यमरिन्दमा ध्रुवम् विवाहकरणामास्थास्यामि विधानतः युधिष्ठिरौ उवाच मा राजन् विमना भूस्त्वम् पाञ्चाल्यप्रीतिरस्तु ते ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् वयम् हि क्षत्रिया राजन् पाण्डोः पुत्रा महात्मनः ज्येष्ठम् माम् बिद्धि कौन्तेयम् भीमसेनार्जुना विमौ आभ्याम् तपसुता राजन् निर्जिता यमौ तत्र कुन्ती यत्र कृष्णा व्यवस्थिता व्येतुते मानसम् दुःखम् क्षत्रिया स्मोम्नर्षभ पद्मिनी वसुते गता तथ्यम महाराजद्रवीते भागुरस्कम्च परायण